हरि ओम् श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे द्वात्रिंश सर्गः श्रीराम निधनं मत्वा सीताया विलापः रावणेन सभां गत्वा मन्त्रिभिः युद्धविषये मन्त्रणम् सा युद्ध सीता स दृष्ट्वा तच्च कार्मुकमुत्तमम् सुग्रीव प्रतिसंसर्गम् आख्यातं च हनुमताय नयने मुखवर्णञ्च भक्तुस्तत्सदृशम् मुखम् केषां केषां तु देशं च तं शुभम् एते सर्वे अभिज्ञाने अभिज्ञाय सुख सुदुःखिताय विजगर्हे तृकैकेयीम् रोशन्तीं कुरी यथा सकामा भवकैकेयी हतोऽयं कुलनन्दनः कुलमुत्सादितं सर्वम् त्वया कलहशीलय आर्येण किं न कैकेय्य कुतं रावेण विप्रियम् यन्मया चिरवसनम् दत्त्वा प्रौराजितो वनम् एवम् उक्त्वा तु वै वेपमाना तपस्विनी जगाम जगतिम् बाल छिन्नातु कदली यथा सा मुहूर्ता क्षमाश्वस्य परिलभ्यथ चेतनम् तच्छिर समुपाय विलापायते वीरव्रतमनुव्रत इमां ते पश्चिमावस्थाम् गतास्मि विधवा कृता प्रथमं मरणं नार्या भर्तृवैगुण्यमुच्यते सुवृते साधुवृत्ताय संवृत्तम् ममागतः महद्दुःखं प्रपन्नाय मग्नाय शोकसागरे यो हि माम् उद्यत त्वं विनिपातितः सा शुर्मम कौसल्या स्वया पुत्रेण राघवे वत्सेनैव यथा धेनो विवत्साय वत्सलाकृताय उद्धिष्टम् दीर्घमायुस्ते दैवज्ञे अपि राघवे अनृतम् वचनम् तेषाम् अल्पायूरसि राघवे अथवा नश्यति पत्न्या प्राज्ञस्यापि सतस्तव पचत्येनम् तथा भूतानां प्रभो ह्ययम् अदृष्टम् मृत्युमापन्न कस्मात् तं यशास्त्र वेत् व्यसनानामुपायन्य कुशलो ह्यसि वर्जने तथा तम् सम् परिभ्यज्य रद्रया तीनृशंसय इति चेशे महाबाहू मां विहाय तपस्विनीम् प्रियमिव यथा नारीम् पृथिवीं पुरुष भर्चितं सततं यत्नात् गन्धमाल्यैर्म य तव इदं ते मत्प्रियं वीर धनुः काञ्चन भूषितम् पित्रा दश अर्थेन त्वं नूनं स्वर्गे समागतः दिवि न च स्वभूतम् च महत् कर्म कृतं तथा पुण्यं राजशिवं क्षमत्वम् आत्मनः समुपेक्षते किं वां न प्रेक्षसे राजन् किं वा न प्रतिभाषसे बालाम् बालिन्न सम्प्राप्ताम् भार्यां मां सहचारिणीम् संश्रुत्य गृह्णताम् चरिष्यामेति यत्त्वया स्मर तन्नाम काकुत्स्थ नय मामपि दुःखिताम् कस्मान् मामपहाय त्वम् कतो गतिम् मताम् वर अस्माोकादमुम् लोकम् त्यक्त्वा मामपि दुःखिताम् कल्याणैरुचिरम् गात्रम् परिष्वक्तम् मयै तु क्रव्यादि तच्छरीरम् ते नूनम् विपरिकृष्यते अग्निष्टोमादिभिर्यज्ञै इष्टवानाप्तलक्षिणै अग्निहोत्रेण संस्कारम् केन त्वम् ननुलप्स्यते प्रव्रज्यामुपपन्नानाम् प्रयाणामेकमागतम् परिप्रेक्ष्यति कौशल्या लक्ष्मणम् शोकलालसा स तस्या परिपृच्छन्त वधम् मित्र बलस्यते तव चाख्यास्यते नूनम् निशायाम् दाक्षसैर्वधम् सा त्वाम् सुप्तम् हतम् न्यात्वा मां च रक्षो गृहम् गताम् हृदयेनावदीर्णेन न भविष्यति राघवे मम हेतोरनार्याय अनघे पार्थिवत्मज रामसागरमुत्तीर्य अहम दास रोढ़ा मोहा सूल पांसली आर्यपुत्र से राय भार्या मृत्यु नून मन मैयां वारित मुतम यहा हद चोचाई भार् सर्वातिथेह साधु घात रामस्योपरि रावण समानये पतिं पत्न्या कुरु कल्याणमुत्तमम् चिरता मे शिरश्चास्य कायम् कायेन योजय रावणानुगमिष्यामि कतिं भूर्मः स्मनः इत्येव दुःखसन्तप्ता विललापायते क्षण भट्टु शिरो धनुर्षैव ददर्श जनका लाप्यम सीतायात्रस अभी चक्र भर्ता अनेकतांजलि विजय स्वायपुत्रेट वाद्य प्रसाद्यु प्राप्त प्रहस्ता वाने स्वमुपस्थित तेन दर्शनकामेण अहं प्रस्थापित प्रभो नूनम् अस्ति महाराज राजभावाप्यमान्वित किञ्चिदात्यायिकम् कार्यम् तेषां तं दर्शनम् कुरु एतत् श्रुत्वा दशग्रीवौ राक्षस प्रतिवेदितम् अशोक एव निकारम् त्यक्त्वा मन्त्रीणां दर्शनं ययो स तु सर्वं समर्थैव मन्त्रिभिः कृत्यमात्मनः प्रविश्य विदधे विदित्वा रामविक्रमम् अन्तर्धानम् तु तत् शीर्षम् तच्च कामुकमुत्तमम् निर्याढ समनन्तरम् राक्षसेन्द्र सुतैः सार्धम् मन्त्रिभि भीम भी विक्रमै समर्थयामास तदा रामकार्य विनिश्चितान् सर्वान् बलाध्यक्षान् हितैषिणः अब्रवीत् कालसदृशम् रावणो राक्षसाधिपः शीघ्रम् भेदीनि नादेन स्फटं कोणाहते ने समानयद्धुं सैन्यानि वक्तव्यं च न कारणं ततः सथेति प्रतिगृह्य सर्व च तदैव दूता स सा महद्बलम् समानयञ्च समागतं च न्यवेदयन् भतृयुद्धकङ्क्षिणी इत्याश्ये श्रीमद् रामायणे वाल्मीकियादिकाव्ययुद्धकाण्डे त्वयश्रीं च सर्गे श्रीसीतारामचन्द्रार्पुणमस्तु